विद्यातपोऽभितप्तानाम् तपसा भावितात्मनाम् आत्मदर्शनतृप्तानाम् आत्म ऋषीणामसि सत्तमः राजर्षीणाम् पुण्यकृता माहवेष्वनिवर्तिनाम् सर्वधर्मोपपन्नानाम् पुरुषर्षभा त्वम् प्रभुस्त्वम् विभुश्च त्वम् भूतात्मा लोकपालाश्च लोकाश्च नक्षत्राणि दिशोदश नभश्चन्द्रश्च सूर्यश्च त्वयि सर्वम् प्रतिष्ठितम् मर्त्यता चैव भूतानामरत्वम् दिवौकसाम् त्वयि सर्वम् महाबाहो लोककार्यम् प्रतिष्ठितम् सातेऽहम् दुःखमाख्यास्ये प्रणयान्मधुसूदन ईशत्वम् सर्वभूतानाम् ये दिव्या च मानुषाः कथम् भार्या पार्थानाम् तव कृष्णसखी विभो दृष्टद्युम्नस्य भगिनी सभाम् कृष्येत मादृशी श्रीधर्मिणी वेपमाना शोणितेन समुक्षिता एकवस्त्रा विकृष्टास्मि दुःखिता कुरु राज्ञाम् मध्ये सभा रजसाति परिप्लुता दृष्ट्वा च माम् धार्तराष्ट्रा प्राहसन् पापचेतसः दासीभावेन माम् भोक्तुमीशुस्ते मधुसूदन जीवत्सु पाण्डुपुत्रेषु पाञ्चालेषु च वृष्णिषु नन्वहम् कृष्णभीष्मस्य धृतराष्ट्रस्य चोभयोः सृषा भवामि धर्मेण साहम् दासीकृताबलात् गर्हये पाण्डवांस्त्वेव युधिश्रेष्ठान् महाबलान् यत्क्लिस्यमानाम् प्रेक्षन्ते धर्मपत्नीम् यशस्विनीम् धिक्बलम् भीमसेनस्य धिक्पार्थस्य च गाण्डिवम् यौमाम् विप्रकृताम् क्षुद्रैर्मर्शयेताम् जनार्दन शाश्वतोऽयम् धर्मपथः सद्भिराचरितः सदा यद्भार्याम् परिरक्षन्ति भर्तारोऽल्पबला अपि भार्यायाम् रक्ष्यमाणायाम् प्रजा भवति रक्षिता प्रजायाम् रक्ष्यमाणायामात्मा भवति रक्षितः आत्मा, आत्मा हि जायते तस्याम् तस्माज्जाया भवत्युत भर्ता च भार्यया रक्ष्यः कथम् जायान्ममोदरे